थ निक्षिप्ते जरानाथराक्ष जग्राहुव्याघ्रंसशोणितोजना कर्तुकाे शकले साक्षसी संयोजया सलचोदिता सनीतमात्रे तो शकले पुषर्षभ एकमूर्तिधरो वीरः कुमारः समपद्यत ततः स राक्षसी राजन् विस्मयोत्फुल्ललोचना न शाकसमुद्वोढुं वज्रसारमयं शिशुम् बालस्ताम्रतलम् कृत्वा चास्ये निधाय सः प्राक्रोसदतिसंरब्धः सतोय इव तोयदः तेन शब्देन सम्भ्रान्तः सहसान्तः पुरे जनः निर्जगामनरव्याघ्र राज्ञा सह परन्तप ते चाबले परिम्लाने पयःपूर्णपयोधरे निरासे पुत्रलाभाय सहसैवाभ्यगच्छताम् अध दृष्ट्वा तथाभूते राजानं चेष्टसन्ततिं तं च बालं सुबलिनं चिन्तयामास राक्षसी विषये राज्ञो वसन्ती पुत्रगृद्धिनः बालं पुत्रमिमं हन्तुं धार्मिकस्य महात्मनः सातम् बालमुपादाय मेघले खेव भास्करम् कृत्वा च मानुषम् रूपमुवाच वसुधाधिपम् राक्षस्युवाच बृहद्रथसुतस्तेयम् मया दत्तः प्रगृह्यताम् तव पत्नी द्वये जातो द्विजातिवरशासनात् धात्रीजनपरित्यक्तो मयायं परिरक्षितः